ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ब्राह्मे पौरन्दरे चास्त्रे निष्ठितो गुरुशासनात् स्थितोऽस्म्यद्यरणे जेतुं त्वां वैवीर्यस्थिरो भव वैशंपायन वाचा एवमुक्तस्तुराधेयो युद्धात्कर्णोऽन्यवर्तत ब्राह्मं तेजस्तदा जैयं मन्यमानो महारथः अपरस्मिन् मनोद्देशे वीरौ शल्यवृकोदरौ बलिनौ युद्धसम्पन्नौ विद्यया च बलेन च अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरं प्रकर्षणाकर्षणयोः अभ्याकर्षविकर्षणैः चकर्षतुरन्योन्यम् मुष्टिभिश्चापि जघ्नतुः ततश्चटा शब्दः सुघोरोह्य भवत्तयोः पाषाणसम्पातनिभैः प्रहारै मुहूर्तम् तौ तदन्योन्यम् ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे अतु श्रेष्ठ ब्रह्मण जराश्चर्य भीमसेन चकारपुर यछल्यम पाति भूमौ न बलिम बलि